हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्दे भागवतमहापुराणे प्रथमस्कन्धे चतुर्थोऽध्यायः ऋषयौच सौम्यव्यासस्य भार्यायां कस्यां जातः सुतशुकः कथं वा कीदृशो येन पठितेयं सुसंहिता अयो निज स्वया तथा चारुणिजुकः संदेहस्त्र कथया गर्भ योगी श्रुक पूर्व शको शको नाम महात कथम च पठित तेना पुराणम बहुविस्तर सुत उवाच पुरा सरस्वती तीरे व्या सत्यवती सुत आश्रम कलधेको तो दुष्ट विस्मय आगता सातमात्रम् शिशुम् नीडे मुक्तमण्डान् मनोहरम् ताम्रास्यं शुभ सर्वाङ्गम् पिच्छाङ्कुर विवर्जितम् तौ तु भक्ष्यार्थमत्यन्तमृतो शैमपरायणौ शिशो चञ्चुपुटे भक्ष्यं पिबन्तौ च पुनः पुनः अङ्गेराङ्गानि बालस्य घयन्तो मुदान्वितौ चुम्बतौ च मुखं प्रेम्णा कलविङ्को शिशौ ीक्ष प्रेमाभुतं तत्र बाले चटकयो व्यासश्चिन्ता तु समचिन्तयत् त्रिश्चामपि यत् प्रेम पुत्रे समभिलक्ष्यते किं चित्तमनुष्याणां सेवाफलम् अभीप्तताम् किं मे तो चटकोचास्य विवाहम् सुखसाधनं विरच्य सुखि लौर्य स्याताम् दृष्ट्वा शुभम् अथवाधके प्राप्त पिछर क्यों परम धर्मी पुण्या कलबिंग अजृत्वा अथवा द्रव्य पितरो तर्पयी अथवा प्रेत कार्या्य श्राधम गतिरोत्सर्गम च विधिव प्रक्यति बालक संसारेऽत्र समाख्यातम् सुखानाम् उत्तमम् सुखम् पुत्रगात्रे परिष्वङ्गोलालनञ्च विशेषतः अपुत्रस्य गते नास्ति स्वर्गो नैव च नैव च पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् मन्वान्दिभिश्च मुनिभिः धर्मशास्त्रेषु भाषितम् पुत्रवान् स्वर्गम् आप्नोति न पुत्रस्तु गतञ्जल दृश्यतेऽत्र समक्षम् तन्नानुमानेन साध्यते पुत्रवान्मुच्यते पापादाप्तवाक्यम् च शाश्वतम् आतुरे मृत्युकालोऽपि भूमि शय्यागतो नरः करोति मनसा चिन्ताम् दुःखितः पुत्रवर्जितः धनम्बे विपुलम् गेहे विविधानि च मन्दिरम् सुन्दरम् चैतत्कृत्य स्वामी भविष्यति मृत्यु काले मनसुख न भ्रमते युर्गते नौन भ्रंत बहुविधा चिंता सत्यवती सुत बहुधा चोष्ण विमनाभूव विचार्य मनसाथ्वसी जगाम वेदुपर्वत स मनसा चिन्तयामासकं देवं समुपास्महे वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा विष्णुरुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरं गणेशं कार्तिकेयं च पावकं वरुणं तथा एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः यदृक्षया समायातो वीणापाणि समाहितः तद् दृष्ट्वा परमप्रीतो व्यासः सत्यवती सुतः कुर्त्वार्घ्ये मासनं दत्त्वा पप्रच्छ, मुनिं श्रुत्वा स कुशलप्रज्नम् पप्रच्छमः चिन्ता तुसि कस्मात् तं द्वैपाह्य अपुत्रस्य कृते न सुखं तदर्थं दुःखितश्चाहं चिन्तयामि पुनः पुनः तपसारः तोषयाम्यद्य कं देवं वाञ्छिता थलम् इति चिन्ता तुस्मद्य चरणं गतः सर्वज्ञोऽसि महर्षे त्वं कथया शु कृपानिधे दे। कं देवं चरणं यामि यो पुत्रं पदास्यति स्वत उवाच इति व्यासेन पृष्टस्तु नारदो उवाच पर्या प्रीत्या कृष्टं प्रति र्द उवाच पाराश्चर्यम् यत् तं पृच्छसि मामिह तमेवार्थं पुरापृच्छनः ध्यानस्थं च हरिं दृष्ट्वा पितां मे विस्मयम् गतः पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् कौसुभोद्भासितं दिव्यं शङ्खचक्र पीताम्बरं च दुर्बाहुं कारणं सर्वलोकानां देवदेवं जगद्गुरुम् वासुदेवं जगन्नाथं तप्यमानं महत्तपः ब्रह्मोवाच देवदेव जगन्नाथ भूतभव्य भवत्प्रभ तपश्चरसि कस्मात् तं किं ध्यायसि जनार्दन विस्मयोऽयं ममात्यार्थं तं सर्व जगतां प्रभु ज्यामयुक्तोऽसि देवे च किं चित्र मतः तन्नाभि कमला जात कर्ताहम् अखिलस्य तत्र कोऽप्यधिको तत्र तं देवं ब्रूहि मापते जानाम्यहं जगन्नाथ त्वम् आधि सर्वकारणं कर्ता पालयिता समर्थ सर्वकारकृत् इच्छयाते महाराज श्रयं व्यहमिदं जगत् हर संवर्ते काले सोऽपि वचने सदा सूर्यो भ्रमति चाकाशे वायुर्वातिशुभाशुभे अग्निस्तपति पर्जन्यो वसति चेत् तदाध्यया सन्तु ध्यायसिकं देवं संशयोऽयं महान् मम तक्त तत्तपदं न पश्यामि देवं वै भुवनत्रे कृपाम् कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत महतां नैव गोप्यं हि प्रायः किञ्चिदिति तच्छ्रुत्वा वचनं तस्य हरिदाः प्रजापतिं शृणुष्वैकमुना ब्रह्मन् साम्बीभि मनोगताम् यद्यपि त्वां शिवं मां च स्थिति सूच्यन्तकारणं ते जानन्ति जना सर्वे स्वदेवासुरमानुषः तस्या त्वं बालकश्चाहिं हर संहारकारकः कृता शक्तेति सन्तर्कः क्रियते वेदपारगैः जगत्सञ्जनमे शक्ति त्वयि तिष्ठति राजसी सात्त्विके मै रुद्रे च तामसी परिकेतिता तया विरेहितस्तम् न तत्कर्म करणे प्रभो नाहम् पालयितुम् शक्त संवर्तुम् नापि शङ्कर तदधीना वयम् सर्वे वर्तामस्ततम् विभो प्रत्यक्षे च परोक्षे च दृष्टान्तम् शृणु सुव्रत शेषे स्वपि मे पर्यङ्के परतन्त्रो न संचये तदधीन सदुक्तिष्ठे काले कालवशं गतः तपश्चरामि सततं तदधीनोऽस्म्यहं तदा सदा कदाचित् स लक्ष्म्या च व्यहरामि यथा सुखम् कदाचिद् दान संग्रामं प्रकरोम्यहम् दारुणं देहदमनं सर्वलोकभयङ्करम् प्रत्यक्षम् तव धर्मज्ञ तस्मिन्ने कार्णवे पुरा पञ्चवर्षसहस्राणि बाहुयुद्धम् मया कृतम् तव कर्णामलजो दृष्टो दानव मदगर्वितो, देवदेव्या प्रसादेन निहतौ मधुकैटभौ तदा त्वया न किम् ज्ञानम् ज्ञातम् कारणम् तु परात्परम् शक्तिरूपम् भाग किम् पृच्छसि पुनः पुनः यदिच्छ पुरुषो भूत्वा विचरामि मा कच्छपे कोलसिंहश्च वामनश्च युगे युगे न कस्यापि प्रियो लोके तिर्यज्ञोनिषु सम्भवे न भवं स्वेच्छया वामवराह दिशु योनिषु विहाय लक्ष्म्या सिहारं कोयाति मस्यादिषु हि योनिषु शय्याञ्च मुक्त्वा गरुडासनर्थ करोमि युद्धं विफुलं स्वतन्त्रेजशिरो मदीयं गतं धनुर्जापि त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पीवरेण भूय हयाननोऽहं प्रकीर्तितैश्च प्रत्यक्षमेतस्तवलोककर्तय विडम्बनेयं किलोकमध्ये कथं भवेदात्मपरो यदि स्याम् तस्मान्नहं चोस्मि शक्तिधीनोऽस्मि सर्वथा तामिव शक्तिं सततं ध्यायामि च निरन्तरं ना तत् परतरं किञ्चिज्जानामि कमलोद्भवः इत्युक्तं विष्णुनाथेन पद्मयोने सुसन्निधौ तेन चाप्य मुक्तोऽस्मि तथैव मुनिपुङ्गव तस्मात् तमपि कल्याणपुरुषार्थाप्तिहेतवे असंशयं मृदम् असंशयम् भज देवि पदाम्बुजम् सर्वं दास्यति सा देवि यद्यदिष्टं भवे तव श्रुत मुक्तस्तु व्यास सत्यवती देवी पादाब्जनिष्णातः तपसे प्रययो गिरौ इति देवी भागवते महापुराणे अष्टादशसहस्र्यां संहितायाम् प्रथमस्कन्धे देवी सर्वोत्तमेतिक नैति कथनं नाम चतुर्थोध्याय श्रीजगदम्बिकायार्पणमस्तु